निस्त्रैगुण्याय नमः ॐ निर्द्वन्द्वाय नमः ॐ नित्यसत्त्वस्थाय नमः ॐ निर्योगक्षेमाय नमः ॐ आत्मवते नमः ॐ विज्ञानफलप्रवक्त्रे नमः ॐ कर्माधिकारबोधकाय नमः ॐ फलसङ्ग्रगृहे नमः गस्थाय नमः ॐ त्यक्तसङ्ग्राय नमः ॐ सिद्धसिद्धसमाय नमः ॐ योगविदे नमः ॐ योगबुद्धिनिरताय नमः ॐ प्रहीणसुकृतदुष्कृताय नमः ॐ योगप्रशंसिने नमः ॐ मनीषिणे नमः ॐ जन्मबन्धविनिर्मुक्ताय नमः ॐ अनामयपदाय नमः ॐ व्यतितीर्णमोहाय नमः ॐ श्रुतश्रोतव्यनिर्भिह्णाय नमः ॐ स्थितबुद्धये नमः ॐ योगिने नमः ॐ केशवाय नमः ॐ स्थितप्रज्ञप्रबोधिने नमः ॐ त्यक्तकामाय नमः ॐ आत्मतुष्टाय नमः प्रज्ञाय नमः ॐ अनुद्विज्ञाय नमः ॐ विगतस्पृहाय नमः ॐ वीतरागाय नमः ॐ वीतभयाय नमः ॐ वीतक्रोधाय नमः ॐ स्थितधि नमः ॐ मुनये नमः ॐ सर्वाभिस्नेहरहिताय नमः ॐ शुभानभिनन्दिने नमः ॐ अशुभद्वेषरहिताय नमः ॐ संवृतः सर्वेन्द्रियाय नमः ॐ प्रतिष्ठितप्रज्ञाय नमः ॐ विनिवृत्तविषयाय नमः ॐ निराहाराय नमः ॐ अदुःखाय नमः ॐ प्रसन्नचेतसे नमः ॐ शान्ताय नमः ॐ सुखिने नमः ॐ गृहीतमनसे नमः ॐ अवृतप्रज्ञाय नमः ॐ योगफलप्रकाशकाय नमः ॐ रसवर्जताय नमः ॐ विपश्यते नमः ॐ संयतेन्द्रियाय नमः ॐ युक्ताय नमः ॐ विषयध्यानदूषणाय नमः ॐ अरागविषयसेवने नमः ॐ वश्येन्द्रियाय नमः ॐ प्रसन्नाय नमः ॐ विधेयात्मने नमः ॐ संयमिने नमः ॐ सर्वभूतनिशाजागराय नमः ॐ विषयानिशानिद्राणाय नमः ॐ आपूर्यमाणाय नमः ॐ अचलप्रतिष्ठाय नमः ॐ समुद्रसदृशाय नमः म् अकामिने नमः ॐ विलीनसर्वकामाय नमः ॐ निर्ममाय नमः ॐ निरहङ्काराय नमः ॐ ब्रह्मनिष्ठाय नमः ॐ ब्रह्मनिष्ठाबर्हणाय नमः ॐ ब्रह्मणे नमः ॐ निर्वाणाय नमः ॐ ज्ञानजायसे नमः ॐ पार्थप्रार्थितनिर्णयाय नमः ॐ मोहध्वंसिने नमः ओम् अनघाय नमः ॐ नैष्कर्म्यनिर्णेत्रे नमः ॐ सिद्धिमार्गविधायिने नमः ॐ प्रकृतिकारितकर्मणे नमः ॐ अकर्मकृते नमः ॐ विषयध्यायविगरणाय नमः ॐ मिथ्याचारविदे नमः ॐ नियतमनसे नमः ॐ नयतधीन्द्रियाय नमः ॐ कर्मयोगिनिर्णायकाय नमः ॐ अकर्मर्हकाय नमः ॐ कर्मबन्धविवेचकाय नमः ॐ यज्ञकर्मविधायिनय नमः ॐ यज्ञसृजय नमः ॐ प्रजापतये नमः ॐ इष्टकामदुहे नमः ॐ कर्मराध्यदेवाय नमः फलदाय नमः ॐ यज्ञभाविताय नमः ॐ स्तेननिवेदिने नमः ॐ यज्ञशिष्टाशिसंशने नमः ॐ अघभोजिबोधकाय नमः ॐ कर्मचक्रप्रवर्तकाय नमः ॐ ब्रह्मोद्भवाय नमः ॐ ब्रह्मप्रतिष्ठाबोधकाय नमः ॐ मोघैविविवेचकाय नमः